मुद्गलपुराण खंडम एयट धूम्रवर्णचरत अध्या तर्टिस्वत्स व्रतमत्म्यवर्णन श्रीगणेशा नम सूत उच प्रसंगा सर्वस कथयाम चरित्रक गणेशभक् चिंत्र शृणुध्व मुनय रातस्नाधेशे पंचकेदशम सवाप्नुयाद असाध्यम साधयन्मर्थ्यरम यद्य दुर्लभम ले द्वादेश गणेशे पंचकेत अत्रे कथयिष्यामीतिहासं पूर्वसम्भवं श्रवणात् पठनात् नृणां पावनं सर्वसिद्धितं नलो नाम महाराजो निषधेषु बभुवः धर्मशीलो वदान्यश्च स्वधर्मनिरदः सदा दमयन्त्यायुधः विचारमकरोत् हृदि त्रिलोकगमने शक्तो भविष्यामि कथं नरः नरदेहधरो यस्तु स्वेच्छा गदियुतो भवेद् तदा तस्य यस्यो धन्यमिह सर्वाधिकं भवेद् एवं विचार्य विप्रेष्यम् गौतमं स ययौ नृपः प्रणम्यतं महाभागं पप्रच्च स्वहितावहम् नल उवाच नरदेहधरस्वामिं त्रिलोकघकदं भवेद तन्मे कथयतत्त्वज्ञ करिष्यामि यथा तथं गौतम उवाच श्रावणेदु प्रतिपदि शुद्धपक्षं महानृप प्रादर्शनत्वात् स्वशाखोक्तं कर्मनित्यात्मकं चरेत ततो गणेशकं राजन् पञ्चकं भक्तिसंयुधः नियमेन समापूज्यव्रतयुक्तो भवेन्नरः आषाढींश समासाद्यामावास्यां गणपे रतः मण्डपे गणनाथं च पूजयेद्धेमनिर्मितं द्वादशब्राह्मणांस्तत्र वरयेद्वेदपारगान् होमं कुर्यादशाम् दशां शेन जपस्यैतैर्महामते पायनं ब्राह्मणायैव प्रदद्यात् स बलिं चरेत ततः पूर्णा हृदिं कृत्वा भोजयेत्तांस्तु पायसैः प्रतिपदि पुनः पूज्य गणेशं सर्वसिद्धितं सुवासिनीभिः संयुक्तान् द्विधान् स्त्रीभिस्तु भोजयेदविंशतिसङ्ख्याकानथवा संख्ययादिगान् दक्षिणां विपुलां दत्त्वा तोषयेत्तान्विशेषदः योषिभ्यः कञ्चुकादींश्च नानालङ्कारकां तथा प्रद्यान्नम्य स सर्वान् गृह्याशिषं विसर्जयेत् सोपस्कारं गणाध्यक्षं प्रदद्यात् गुरवे परम् अन्येभ्यः चक्रिप्रायाण्या दद्याद्दानानि हर्षतः ेवं कुरु महीपालज्ञानयुक्तो भविष्यसि त्रिलोकस्तथा सर्वं लभसे मनसीप्सितं युक्त्वा महायोगी गौदमो विररामः नलस्तं प्रणिपत्यैव स्वगृहं प्रययौ पुरा चकार सर्वधर्मज्ञो नलो गणपतौ यथा विधिव्रतं मुख्यं संवत्सरप्रमाणकं ततः स योगिवन्द्यश्च बभूवज्ञानसंयुधः त्रिलोक्यां गमने शक्तो भूपालो नरदेहगः एवं नानाजना विप्रव्रतं संवत्सरात्मकम् चक्रुस्ते योगिवन्द्याश्च बभूवुर्ज्ञानसंयुधाः मनेप्सिदां प्रलभ्यैव दुर्लभां सिद्धिमुत्तमाम् अन्ते स्वानन्दगाः सर्वे ब्रह्मभूता बभूविरे तेषां चरित्रकं सर्वं मया वक्तुं न शक्यते आनंदवात्भागस निरूत गणेश सेवन नमर्थका किचिनयम संयुक्त व्रत चक्रुप नर ते सिंसाध्य मने मुदा अंदे गण पलोकेतु गत्वा ब्रह्मप्रलेभिरे शूद्र कश्चित् बृहत्कर्मा नाम्ना वन्ध्यो बभूवः पुत्रार्थं प्रयदो भूत्वा नानाकर्म परो भवत् नलेभे सन्तदिं सोऽपि ततोदि दुःखसंयुतः प्रजगामवनं घोरं तत्र विप्रान् ददर्शः तान् प्रणम्य महाभागानाभृच्छत्पुत्रदायकम् उपायं ते समाचख्युर्व्रतं संवत्सरात्मकं श्रुत्वा विधियुतं पूर्णं व्रतं गाणेश्वरं परं प्रणम्य समायादस्वगृहं हर्षसंयुधः गणेशपञ्चकम् पूर्णं सेवितुं न बभूवः समर्थः तदो विप्र चकारस्वल्पभावदः स्नात्वा गणपतेः पूजां चकारपार्थिवीं परां नाममन्त्रै स्वयं नित्यं ब्रह्मचर्ययुतो भवद एकभुङ् नियमे संस्थश्चकारव्रतमुत्तमं समाप्य तद्व्रतपूर्णं गणेशमभजन्मुदा द्विजातीनां शशुश्रूषां चकारधर्मसंयुतः मिलितेन तदन्नेन कुटुम्बं समपोषयद ततः स्वल्पेन कालेन पुत्रं लेभे महामुने ज्ञानयुक्तं सरूपं तं दृष्ट्वादि हर्षिदो भवद क्रमेण पञ्चपुत्राश्च पुत्र्यस्तिस्रो बभूविरे शूद्रस्य स गणेशानं मन्यते स्म समर्थकम् अन्ते स्वानन्दलोकं स जगाम भार्ययायुधः इह भुक्त्वा किल भोगान् ब्रह्मभूतो बभूवः एवं नानाजना विप्र किञ्चित् कृत्वा व्रतात्मकं नियमं सिद्धिसंयुक्ता बभूव कथिते ब्रुवे उद्यापनं <त enough> प्रोक्तं तदेव सर्वसंमतं <Amen> सर्वमासेषु कर्तव्यमासात्मकव्रतेऽपि च सादुर्मास्यव्रते विप्र उद्यापनमिदं स्मृतं मलमासव्रते तद्वदिदं कर्तव्यमादराद सां वत्सरं मुख्यं कथितं ते समासतः पठनाश्रवणाच्छेदं सर्वदं प्रभविष्यति ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे